कल्यताम् मम कुरुष्व तावतीम् कल्यते भवदुपासनम् ययाम् पुष्टया श्रु तव तुष्टिमाप्नुयाम् ब्रह्मचर्य पाविताः कुर्महे दृढममी सुखासनं पङ्कजाद्यमपि वा भवत्पराः तारमन्तरनुचिन्त्य सन्ततम् प्राणवायुमभियम्य निर्मलाः इन्द्रियाणि विषयादतापहृत्यास्महे भवदुपासनोन्मुखाः अस्फुटेव प्रयत्नतो धारयेम धिषणाम् मुहुर्मुहुः तेन भक्तिरसमन्तरार्द्रता मुद्वहेम भवदङ्घ्रिचिन्तकाः विस्फुटावयव भेद सुन्दरम् त्वद्वपुः सुचिरशीलनावशात् आश्रमम् मनसि चिन्तयामहे ध्यान योग निरतास्त्वदाश्रयाः ध्यायताम् सकल मूर्तिमीदृशीमुन्मिषन् मधुरता ब्रह्मरूपमयितेव भासते तत्समास्वदनरूपिणीम् स्थितिम् त्वत्समाधिमहि विश्वनायका आश्रितः पुनरतः परिच्युता वारभेमहि च धारणाधिकम् इत्थमभ्यसन निर्भरोल्लस त्वत्परात्म सुख त्वत्समाधिविजये तु यः पुनर्मङ्क्षु मोक्षरसिकः क्रमेण वा योगवश्यमनिलम् षडाश्रयैरुन्नय त्यज सुषुम्नयाशनैः लिङ्गदेहमपि सन्त्यजन्नथो लीयते त्वयि परे निराग्रहः ऊर्ध्वलोककुतुकी तु अग्निवासरभलक्षपक्षगैरुत्तरायणजुषा च दैवतैः प्रापितोरविपदम् भवत्परो मोदवान् ध्रुवपदान्तमीयते आस्थितोतमहरालये यदा शेषवक्त्रदः नोष्मणार्ध्यते पदमतः पुरैव तत्र वा वसन् प्राकृत प्रलय एति मुक्तताम् स्वेच्छया पुरापि मुच्यते संविभिद्य जगदण्ड मोचसा तस्य च क्षितिपयो महो निलध्यो महत् प्रकृति सप्तकावृतिः तत्तदात्मकतया विशन् सुखी याति ते अर्चिरादिगतिमीदृशीम् व्रजन् विच्युतिम् न भजते जगत्पते सच्चिदात्मकभवद्गुणोदयानुच्चरन्तमनिलेश पाहि माम्